हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे प्रथमस्कन्धे सप्तदशोऽध्यायः श्रुत उवाच इत्यस्वापितरम् पुत्रपादयो पतितक्षक बद्धाञ्चली उवाचेदम् गन्तुकामो महामनः आकृच्छे त्वाम्भाग्राह्यम् ते वचनं मया विदेहान् द्रष्टुमिच्छामि पालितान् जनकेन तु विना दण्डम् कथम् राज्यम् करोति जनकः किल धर्मेण वर्तते लोको दण्डश्चेन्न भवेद्यदि धर्मस्य कारणम् दण्डो मन्वा दीप्रहितम् तदा स कथम् वर्तते तात संशयोऽयं महान् मम मम माता स्वयम् बन्ध्या तद्वद् तद्वद्भाति विचेचितम् पृच्छामि त्वां हाभाग गच्छामि च परन्दप सूतौ वाच तं दृष्ट्वा च सुखम् सत्यवती सुतहे आलिङ्ग्यो वाच पुत्रम् तम् ज्ञानिनम् निःस्पृहम् दृढम् व्यासोवाच स्वस्य सुशुकदीर्घायु भव पुत्र महामते सत्याम् वाच्यम् प्रदत्त्वा मे गच्छतात यथा सुखम् आगन्तव्यम् पुनर्गत्वा मम श्रमम् मनोत्तमम् न कुत्रापि च गन्तव्यम् त्वया पुत्र कथञ्चन सुखम् जीवामि पुत्राहम् दृष्ट्वा वित्ते मुखपङ्कजम् अपश्यन् दुःखमाप्नोति प्राण त्वमस्मे तुतः दृष्ट्वा पुत्र सन्देहम् विनिवर्त्यते अत्रागत्य सुखम् तिष्ठ वेदाध्ययन तत्परः श्रुत इत्युक्तः सोऽभिवाद्यार्यम् कृत्वा चैव प्रदक्षिणाम् चलितसरसाव धनुर्मुक्तः शरो यथा सत्पश्चन् विविधान् देशान् लोकाश्च वित्तधर्मिण वनान्नि पादपाश्चैव क्षेत्राणि फलितानि च तापसान्तप्यमाना च याजकान् दीक्षयान्वितान् योगाभ्यासरतान् योगिन् वानप्रस्थान् वनोकसः शैवान पाशुपसा चैव सौरा सौरान् शाक्तान् च वैष्णवान् वीक्ष्य नाना विधान् धर्मान् माती स्मयन् मुनि वर्षद्वयेन मेरुम् च समुल्लङ्घ्य महामती हिमाचलम् च वर्षेण जगाम मिथिलाम् प्रति प्रविष्टो मिथिलाम् मध्ये पश्यन् सर्वर्धिमुत्तमाम् प्रया च सुखिता सर्वासुदाचारासु संस्थिता क्षत्रा निवारितस्तत्र कत्वमत्र समागतः किम् ते कार्यम् वदस्वेति पृच्छस् तेन न चाब्रवीत् निःसृत्य नगरद्वारा वचो नोवाच किञ्चन प्रतिहार उवाच ब्रूही मोकोऽसि किम् ब्रह्मन् किमर्थम् तम् ह्यायत् चलनम् च विना कार्यम् न भवेदिति मे मतिः राजाज्ञया प्रवेष्टव्यम् नगरेऽस्मिन् सदाद्रिय कुलशीलस्य प्रवेशो नात्र सर्वथा तेजस्वि भासि ब्राह्मणो वेदवित्तमः कुलम् कार्यम् च मे ब्रूही यथेष्टम् यदर्थम् आगतोऽस्म्यत्र तत्प्राप्तम् वचनात् तव विजयः नगरम् द्रष्टुम् प्रवेशो यत्र दुर्लभ भोहोऽयम् मम दुर्बुद्धे गिरिद्वयम् राजानम् द्रष्टुकामोऽहम् पर्यटन समुपागतः वञ्चितोऽहम् स्वयम् पित्रा दूषणम् भ्रामितोऽहम् हा भाग कर्मणा वा महीतले धनाशा पुरुषस्य परिभ्रमणकारणम् स मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात् किल निराशस्य सुखम् नित्यम् यदि मोहेन मज्जति निराशोऽहम् हा भागमग्नोऽस्मिन् मोहसागरे क्व मेरो मिथिला पेयं पद्भ्यां च समुपागतः पिश्रम फलम कि विधिना किल प्रार्धम किल भोक्त शुभम वाप्य शुभम उद्यमस्तव नित्य कारय सर्वथ न तीर्थम न च वेद यदि अवेशो नाम भूपतिरुमीभूत स्थित ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद् द्विजोत्तमः स म पूर्वम् उवाचा सोतम् क्षत्ता संस्थितम् मुनिम् गच्छ भो यत्र ते कार्यम् यथेष्टम् अपराधो मम ब्रह्मन् यन्निवारितवानहम् तच्छन्तव्यम्भागविमुक्तानाम् क्षमाबलम् शुकोवाच किञ्च दूषणम् क्षत्त परतन्त्रोऽसि सर्वदा बहुकार्यम् प्रकर्तव्यम् सेवकेन यथोचितम् न भूप्रदूषणम् चात्र यदहम् रक्षित त्वया चोरशद्रूपरि ज्ञानम् कर्तव्यम् सर्वथा बुधै ममैव सर्वथा दोषो यदहम् समुपागतः गमनम् परगेहे यत् लघुतायाश्च किं सुखम् द्विज किं दुःखम् किं कार्यम् शुभमिच्छत कश्चित् का रोहितकर्ता को ब्रूहि सर्वं ममा दिवै शुभोवाच वैविध्यम् सर्वलोकेषु सर्वत्र द्विविधो जनः रागी चैव विरागी च तयो चित्तम् द्विधा पुनः विरागी त्रिविधकामम् ज्ञातो न्यासस्य मध्यमः रागी च द्विविध प्रोक्तो मूर्खश्च चतुरस्तथा चातुर्यम् द्विविधम् प्रोक्तम् शास्त्रजम् मतिजम् तथा मतिस्तु द्विविधा लोके युक्ता युक्तेति सर्वथा प्रतिहार उवाच भवता विद्वन्नार्थन्योऽहम् द्वियोत्तम तत्सर्वम् वित्तरेणाद्य यथार्थं वदसत्तम शुक उवाच रागो यस्याति संसारे स ध्रुवम् दुख बहु विधम तर सुखम च विविध धनम्य सुखा दारा च विजय तथा तद प्राप्य महदुख क्षण क्षण कार्य तस्थोपाए कर्तव्यम सुख साधनम तरह विज्ञेय सुख विघ्नम कर सुखोत्दयिता मित्रम रागयुक्त सर्वदा चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति विरक्तस्यात्मरक्तस्य सुखम् एकान्तसेवनम् आत्मानुचिन्तनम् चैव वेदान्तस्य चिन्तनम् दुःखम् तदेतत् सर्वं हि संसार कथनादिकम् चत्रवो बहुवस्त्रस्य विज्ञस्य शुभमिच्छत कर्म क्रोध प्रमादश्च चत्रवो विविधास्मृता बन्धु सन्तोष एवास्य नान्योऽस्ति भुवनत्रये श्रोत उवाच तच्छ्रुत्वा वचनम् तस्य मत्वा तम् ज्ञानिनम् द्विजम् शक्ता प्रवेशया मासे कक्षाम् चाति मनोरमाम् नगरम् वीक्षमाणः सन् त्रैविध्य जनसङ्कुलम् नाना विपणि रागद्वेषयुतम् कामलोभमोहाकुलम् तथा विवदत्सूजना किरणम् वसपूर्णम् महत्तरम् पश्यन्स त्रिविधान् लोकान् प्रासरे राजमन्दिरम् प्राप्त परमपि तेजस्वी तत्रैव च स्थितो द्वारि मोक्षमेवनुचिन्तयन् छायायाम् मातपे चैव समदर्शी महातपः ध्यानम् कृत्वा तथैकान्ते स्थितस्थाणो युवाचल तन्मुहूर्तात् उपागत्य राज्ञोमात्य कृताञ्जलिः प्रावेशयत्तथ कक्षाम् द्वितीयाम् राजवेश्मनः तत्र दिव्यम् रोरम्यम् पुष्पितम् दिव्यपादपम् तद्वनम् दर्शयित्वा तु कृत्वा चातिथिसत्क्रियाम् वारमुख्या स्त्रियस्तत्र राजसेवापरायणः गीतवादित्र कुशलाः कामशास्त्रविशारदाः सा्य च सेवार्थम् शुकस्य मन्त्रिसत्तमः निगतस्य तस्मात् व्यासपुत्र स्थितस्तदा पूजि पर भक्त देश कालोपन्न नाता पतिपुर का नम्य सन्दर्शया सुना काम मोहिता स युवान्का मृदुभाषी मनोरमे दृष्ट्रा मुहु सर्वा तमच काम पर चितेन्द्रियं हरिं मत्वा सर्व पर्यचरन् ददा आरण्ये यस्तु शुद्धात्मा मातृभावम् अकल्पयत् आत्मारामोजित क्रोधो नुरुष्यति न तप्यति पश्यन्ता यस्ताम् विकारा च स्वस्थ एव सुतस्थिवान् तस्मैशय्यां सुरम्यां च दुर्नार्य सुसंस्कृताम् परार्घ्य सरणोपेतां स्करसंवृताम् सकृत्वा पादशौचं च कुशपाणिरतन्द्रितः उपास्य पश्चिमाम् सन्ध्याम् ध्यानम् देवान्वपद्यते यामम् एकम् स्थितो ध्याने श्रुत्वा तत्र चतुषुक पाश्चात्यम् यामियामम् ध्यानम् देवान्वपद्यते पुनरास्ते समाहितः इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्यां सीतायाम् प्रथमस्कन्धे शुकस्य राजमन्दिरप्रवेशवर्णनं नाम सप्तदशोऽध्यायः श्रीजगदम्बिकायार्ममस्तु